श्रीमद्भागवत्महापुराणं नवमस्कन्ध अथ चतुर्विंशोऽध्यायः विदर्भकी वंशकावण्यन् शेषोकुवाच तस्यां विदर्भो जनयत्पुत्रौ नाम्नाकुशग्रथौ तृतीयं रोमपादं च विदर्भकुलनन्दनं रोमपादसुतो ब्रभ्रोर्ब्रभ्रो कृतिरजायत रुचिकर्तसुतस्तस्मा चेदिश्चेद्यादयो निपथस्य कुन्ति पुत्रोऽभूदृष्टि तस्याथ निवृत्तिः ततो दासार्होनाम्ना भूतस्य व्योम सुतस्ततः धीमूतो विकृतेस्तस्य यस्य भीम रथः सुतः ततो नवर्थ पुत्रो जातो दशरथस्ततः करम्भिः सकुले पुत्रो देवरातस्तदात्मजः देवच्छत्रस्ततस्तस्य मधु कुरुवशादनुः पुरुहोत्रस्तनो पुत्र तस्यायुः सात्त्वतस्ततः भजमानो भजीर्दिव्यो विष्णुदेवावृधोऽन्धकः सात्वितस्य सुता सप्त महाभोज समारिश धजमानस्य निम्नोचे किङ्किणो धृष्टिरेव च एकस्यामात्मजा पत्न्याम् अन्यस्यां च त्रयः सुताः शताञ्जिच्च सहस्राजी अयुतादिञ्जिदितो प्रभो ब्रभृदेवाभिसुतयो श्लोकौ पठन्त्यमो यथैव शृणुमे दूरात् सम्पश्याम तथाकात् ब्रभू श्रेष्ठों मनुष्याणां देवै देवावृधशम पुरुषा पञ्चषष्ठीश्च षड्सहस्राणि चाष्ट हे चा। मृष त्वम् अनुप्राप्ता बभ्रूर्देवावृथादपि महाभोजोऽपि धर्मात्मा भोजा आसंस्तन्वये दृष्णेषु मित्रपुत्रो भोजिधाजिच्च परं तप स्यान्मित्रस्य निम्नो भूदनमित्रतः सत्राजितप्रसेनस्य निम्नस्याप्यासृतसुतौ अन्मित्र सुतो येन्यश्नितस्याथ सत्यकः युधा न सातिकैवैर्यजस्तस्य कुलीस्ततः युगधर्म युगन्धरो न मित्रश्च विष्णुपुत्रोपरस्ततः सफल्कश्चित्र गादिन्यां च सफल्कं सफल्कतः अक्रोर प्रमुखा आसन् भद्रा द्वादशविश्रुताः आसङ्गसारमेयश्च मृदुरो मृदुविद्गिरिः धर्मवृद्ध सुकर्मा च क्षेत्रोपेक्षोरिमर्दनः शत्रुघ्नो गन्धमादश्च प्रतिबाहूश्च द्वादशम् तेषां श्वासा शुचिराक्षाद्वावप्रूरसुतावपि देववानुपदेवश्च तथा चित्ररसात्मजाः पृथुविदूरमान् विदूरथामुद्याश्च बहो विष्णुनन्दनाः कुकुरो भजमानश्च शुचिः कम्बलबर्हिषः कुकुरश्च सुतो वन्धे विलोमातनिस्ततः कपोतरो मां तस्यानुषखायस्य च तुम्बुरुः अन्धको दुन्धभिस्तस्मान्नरिद्योत पुनर्वशुः तस्याहुकश्चाहुकी च कन्या चैवाहुकात्मजो देवकश्चोग्रसेनश्च चत्वारो देवकात्मजाः देवमानोपदेवश्च सुदेवो देववर्धनः तेषां सुसार सप्तासन्धिदेवादयो देव नृप सा शान्तिदेवोपदेवां च श्रीदेवादेव रक्षितां सह देवादेव की च वसुदेव उवाहताः कंसुनामान्यग्रोधकङ्कशङ्कुसुस्तथां राष्ट्रपालो च सृष्टिश्च तिष्ठिमानोऽग्रसेनयः कंसा कंसवती कङ्कासुरभूराठपालिका उग्रसेन दुहितरो वसुदेवानुजस्त्रियः शूरो विदूरथादासीन् भजमानसुतस्ततः दिने तस्मान् स्वयं भोजो हृदि कस्त सुतो मतः देवबाहू सतधनुर्कृतवर्मेति तत्सुताः देवमीढस्य सूरस्य मालिसानाम पत्न्यभू तस्यां स जनयामास दशपुत्रान् कल्मषान् वसुदेवं देवभागं देवस्रवसमानकं सृजयं श्यामकं कङ्कं शमीकं वसकमृकं देवदुन्दुभि यो आनकायस्ति जन्मनि वसुदेवं हरे स्थानं वदन्त्यानकदुन्दुभिं पिता च सुतदेवा च